मुद्गलपुराणं खण्डं 6, विकटचरितम् अध्यायम् 44, फोर् विकटवरदचरितं श्रीगणेशाय नमः आदिशक्तिरुवाच एकमेव द्वितीयं यद्ब्रह्मवेदेषु शक्तयः तदेव विकटप्रोक्तस्तेन माया प्रकाशिता मायां ब्रह्म विकटस्य महात्मनः आत्माकारं च सर्वत्र भ्रमस्तं जीववाचकं संज्ञा जादा ततस्तस्य विकटस्य परात्मनः सा संज्ञा भूद्रवेर्भार्या माया केलकरी परा तस्यां बिम्बमया द्वीर्या नाना जीवा बभूविरे तेषां सूदिकरसोऽपि सूर्य इत्यभिधीयते संज्ञया संयुतः सूर्यो ज्ञानहीनो बभूवः तपस्ततापखोरंस गणेशस्य महात्मनः दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः प्रसन्नस्तं ययौ भक्तवात्सल्यकारणाद उवाच तं रविं देवो वरं ब्रूहि हृदीप्सितं दास्यामि तपसा तुष्टो भवेद्येदपि दुर्लभं तदोभानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः संज्ञया सहसोद्धाय प्रणनाम गजाननम् पुनः पुनर्ननामाधत्तं सम्पूज्य महायशाः कृत्वा करपुडं संज्ञायुधस्तोधुं प्रचक्रमे सूर्य उवाच नमस्ते विकटायैव मायामायिकरूपिणे वामाङ्गे संज्ञयायुक्तदक्षिणां गे च भानवे तयोर्योगे गणाधीशसिद्धिबुद्धिपदिर्मदः गजाननादिचिह्नैश्च संयुतस्ते नमो नमः एकमेव द्वितीयं यद्ब्रह्म तद्वर्णये कथम् धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननं गजाननाय सर्वादि पूज्याय परमात्मने हेरम्भाय सदा ज्येष्ठराजाय ते नमो नमः परेशाय महाविघ्ननाशनाय महात्मने दुरात्मभ्यो महाविघ्नदायपाय नमो नमः अनाधाय सनाधानां नाधाय सर्वदायिने अनाधानां प्रणाधाय नाधनाधाय ते नमः अनन्दविभवायैवानन्दमायाप्रधारिणे ब्रह्मणस्पदये तुभ्यं कवयेते नमो नमः मूषकवाहनायैव वा सर्वान्तरप्रचारिणे मूषकध्वजिनेतुभ्यं मयूरेश नमोऽस्तु ते किं स्तौमि त्वां गणाधीश पञ्चचित्तप्रचालक अतोऽहं प्रणमाम्येव तेन तुष्ठो भवप्रभो एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽ भवद रुद्धकण्ठं प्रनृत्यन्तं गणेशस्तं जगादः श्रीगणेश उवाच मदीयस्तवनं चेदं सर्वदं सम्भविष्यदि त्वया कृतं पठेद्यश्च शृणुयात् तस्य सर्वदा यं यम यमिच्छति तं तं तु दास्यामि स्तोऽत्र पाठतः सन्तुष्टो ते ब्रह्ममयम् करिष्यामि महामदे दास्यामि त्वं वरान् ब्रूहिह्यधुना भक्त्रिमोहिदः सस्त्रीकस्तान् महाभानो मम भक्ततरो मदः भानुरुवाच प्रसन्नोऽसि यदाढुण्ठे देहि भक्त्रिं त्वदीयिकाम् ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो परं सामर्थ्यमतुलं देहि सर्वात्मधारकं मां कुरुष्व गणेशानगणपत्यप्रियं सदा त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः तत्र पुत्रभावेन भजिष्यामि निरन्तरं हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणं तेनाहं कृतकृत्यश्च भविष्यामि गजानन ओमित्युक्त्वा गणाधीशस्तदों दर्धानगो भवद सूर्यस्तम् चिन्ध्यस्वस्थानं जगामप्रियया सह सूर्यसत्तासमायुक्तो ज्ञानवान् निर्ममे परम् असद्ब्रह्म तदः सर्वं नानारूपमकल्पयद गणेशवरदानेन मोहहीनो बभूवः अभजत्तं सदाभानुर्भग्र्या योगीन्द्रवन्दिदः यकदा प्रियया युक्तसस्मारगणनायकं तामिस्रासुरगर्वेण पीडितो बलवत्तरं स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणं बालम् शुण्ढाधरं वीक्ष्य तं पप्रविभावसुः सूर्य उवाच कोऽसि त्वं वदमां बाल गणेशकृतिधारक किमर्थमिह चायाथ किं गणेशो भवान् परः सूर्यस्य वचनं श्रुत्वा तं जगाद गजाननः स्मृतिजोऽहं सुदो भानो तव विघ्नेश्वरस्वयं पुरा वरस्तेन पुत्रोऽहं ते समागतः पालयस्व मां त्वं संज्ञया सहमानद तस्य तद्वचनं श्रुत्वा संज्ञया सहचार्यमा प्रणम्या पूज्यतुष्टाव अथर्वशिरसा प्रभुम् एतस्मिन्नन्तरे तत्रा जगाम सुरसत्तमः तामिश्रस्थं विलोक्यैव पपालसविताभयाद उद्धाय गणनाधस्थम् जखान मुष्टिखादः पादयामास भूम्यां निर्जीवं दैत्यपुङ्गवम् मृदं दैत्यं विलोक्यैव जगामसविदा पुनः तम् प्रणम्यस्तिदो दूरे गणेशेन विमोहितः मोहितः सञ्ज्ञया भानुस्तं गृह्यपुत्रकम् लालयामास हर्षेण पुत्रभावपरायणः गणेशमायया तत्र संज्ञास्तन्यमपायत वरं दत्त्वा गतं पुत्रं वरदाख्यं चकारतं ततः सोन्दर्हिदपुत्रो भानुसम्मूर्च्छितो भवद संज्ञया च तयोर्धुण्डिर्हृदि बभूवः माशोकं कुरुदं तादौ न वियोगश्च मे क्वचिद् मूर्तिं कृत्वा सदा तत्र पूजये धां ततस्तौ सावधानौ तु तथा शक्रतुरादराद भक्त्या गणपतिं नित्यं भजतः परमेश्वरौ शक्रय ऊजुः कोऽसौ तामिश्र संज्ञश्चासुरस्तस्य चरित्रकं वदशक्रे यदर्थं तु वरदसं बभुवः आदिशक्रिरुवाच सूर्योऽहङ्कारसंयुक्तो बभूवे जीवनात्मकः सर्वेषां दीप्तिदाता मम दीप्तिकरो न च एवं बहौ गते काले विस्मृतो गणनायकं छायायां तस्य जज्ञेयं तामिस्रपुरुषाकृतिः तम् दृष्ट्वा कर्षितो मेने पुत्रम् मेनेहितावहम् अन्धकारपरम् पूर्णं वरदस्तमुवाचः भानुरुवाच त्रिगुणान्नभयम् पुत्रभविष्यति कदाचन त्रैलोक्यराज्यमुग्रम् ते मया दत्तम् विशेषदः यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल भविष्यति जतामिश्र नाम भव सुभाग्यवान् तं प्रणम्यमहादैत्यः पादालमगमन्मुदा शुक्रेण प्रेरितैर्दैत्यै कृधो राजा सुरद्विषाम् सहताैर्मदसंयुक्तो जिज्ञे ब्रह्माण्डमण्डलं राज्यं चकार दैत्ये शैर्महा बलयुतो बभौ रविं तेजस्विनं दृष्ट्वा वैरभावेन संयुधः अन्धकारेण नित्यं सं चादयामासक्तयः निरर्थकं चकारासौ सूर्यं तेजस्विनां वरं नानायत्न परसूर्यस्तं जेतुं न शशाकः ततोऽहङ्कारहीनः सस्मारगणनायकं गणेशेन हदैत्यसूर्यभावप्ररक्षणाद एतत् सर्वं समाख्यादम् सूर्यपुत्रस्य चेष्टितं वरदस्य महादेव्य सर्वसिद्धिकरं परं शृणुयादिदमाख्यानं पठिद्वा तस्य सर्वदं भविष्यदि सदा चान्दे ब्रह्म भूयप्रदायकम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ओम्